श्रीमद्भागवतमहापुराणं दसंस्कन्ध अथ युगलगीत युगल्गीतश्रीशुकुवाच गोप्यकृष्णे वनं जाते तमनुद्रौ चेतसः वामबाहू कृत वामकपोलो वल्गितं भ्रूधरार्पितवेणुं कोमलाङ्गुलिभिरास्थितमार्गं गोप्य ईरयति यत्र मुकुन्दः व्योमयानवनिता ससिद्धै विस्मितास्तदुपधार्यसलज्जाः काममार्गणसमर्पितचिताः कस्मलं ययूरपस्मृतनिभ्यः हन्तचित्रमबलाष्णुं द्वेदं हारहासौरसि स्थिरविद्युत नन्दसूनोर्यमार्तजनानां नर्मदो यरिः कूजितवेणुः दिन्दसो व्रजविषा मृगगावो वेणुवाद्यतचेतस आरात दन्तदष्टकबलाधृतकर्णानिद्रिताल्लिखितचित्रमिवासन् बर्हिणस्तबकधातुपलाशैर्बद्धमल्लपरिबर्हविडम्बः कर्हि च सबल आलिसगोपैर्गासमाह्वयति यत्र मुकुन्दः तर्हि भग्नगतय सरितो वै तत्पदाम्बुजरजोनिलनीतं स्पृहयतिर्वयमविवा बहुपुण्या प्रेम वेपितभुजास्मिन् अनुचरै समनुवर्णितविर्य आदिपुरुष इवाचलभूते वनचरो गिरितटे सुचरन्तिर्वेणुनाह्वयति गा स यदा हि वनलतास्तर्व आत्मनि प्रेमहिष्टतनव प्रणतभारविटपा मधुधाराः प्रेमहिष्टतनवसुजोष्मा दर्शनीय तिलकोवनमालादिव्यगन्धतुलसी मधुमत्तै अलिकुलैरलघुगीतसन्मभीष्टम् आज्यन्यर्हि सन्धितवेणुः सरसी सारसहंसविहङ्गाश्चारुगीतरितचेतसत्येत्यम् हरिमुपासतते यतचित्ता हन्त मेलित दुशोधितमौनाः सबलसृगं सृगं वतं सविलास सानुसूचितभितो व्रजदेव्यः हर्षयञ्जर्हि वेणि जात हर्ष उपरं भति विश्वं महदतिक्रमणशङ्कितचेता मन्द मन्दमनुगर्जति मेघ छेद्मभ्यवर्षत सुमनोभि छाययाचन् विदधत विविध <laughs> गोपचरणेषु विदग्धो वेणुवाद्य उरधा निजशिक्षाः तव सुत सति यदाधरबिम्बे दत्तमेलूरनयत् स्वरजातिः सवन सुरेशाह सवनसस्तदुपधार्यसुरेशाः शक्रसर्वपरमेष्ठिपुरोगाः कवे आनत कंधर आनतकन्धरचित्ताः कस्मलं ययुर्निश्चिततत्त्वाः निजपदाब्जन्दलैर्ध्वजभद्रन्निर्जाङ्कुशविचेत्रललामैः व्रजभुवसमयं कुरुतोदं वस्मयोऽन्धुरिङ्गतिरीडितवेणुः दजति तेन वयं सविलास वीक्षणार्पितमनोभववेगाः कुजगतिं गमिता न विदाम कस्मलेन कबरं वसनं वा मणिधर क्वचिदा गुणयङ्गा मालयादैतगन्धतुलस्याः प्रणयिनोऽनुचरस्य कदांसे प्रक्षिपन् भुजमगायति यत्र क्वलितवेलुरं दवञ्चितचिताः कृष्णमन्वसत कृष्णगृह्णी गृहिण्यः गुणगणानमनुगत्य हरिण्यो गोपिका इव विमुक्तगृहाशाः कुमुदतामकृतकौतुकवेशो गोपगोधनवृतो यमुनायाम् नन्दसूनूरन्नघे तव वसो नर्मदा प्रणीनां विदहार मन्दवायूरपवात्यनुकूलं मालयन् मलयञ्जस्पर्शेन वन्दिनस्तमुपदेवगणाय वाद्यगीतबलभिपरिवब्धुः वत्सलो व्रजगवां जगन्ध्रो वन्द्यमानचरणपतिवृद्धै दिनान्ते कृत्स्नगोधनमुपोषदिनान्ते गीतवेलूलु नुग नुगेडितकीर्तिः उत्सवं समरुचापि दृष्टिनाम् उन्नयन्खुररज स्थुरितस्रकदिस्तयेति श्रहृदाशिषये स देवकी जठर भूरूडुराजः मदविघोणितलोचन ईशनमानदस्वसुहृदाम्बनमाले वदरपाण्डुवदनो मृदुगण्डं मण्डयन् कनककुण्डलक्ष्म्यां यदुपतेर्द्विरेन्दराजविहारो यामिनीपतिरिवये सदिनान्ते मुदितवक्त्र उपयाति दुरन्तं मोचयन् ब्रजगवां दिनतापं श्रीशोगुवाच देवं ब्रजस्त्रियो व्रज स्त्रियो राजन् कृष्णलीलानुगायतिः रेमि तन्मनस्का तन्मनस्कामहोदयाः ते श्रीमद्भागुते महाप्राणे पारंशां शयितायां दशं स्कन्धे पुरवाधि वृन्दावनक्रीडायां गोपिकायुगलगीतं नाम पञ्चत्रिंशोऽध्यायः